न हि पुत्रम् न नप्तारम् न भ्रातरमरिन्दमाः समतिक्रान्तमर्यादम् पूजयन्ति नराधिपाः यत्नाच्चोपचरेदेनमग्निवद्देववद्विहानृतेनोपचीर्णो हि हन्यादेव न युञ्जीता यद्यद्भर्त्रानुयुञ्जीता तत्तदेवानुवर्तयेत् प्रमादमबले पञ्च कोपञ्च परिवर्जयेत् समर्थनासु सर्वासु हितञ्च प्रियमेव च संवर्णयेत्तदेवास्याप्रियादपि हितं भवेत् अनुकूलो भवेत् चास्य सर्वार्थेषु कथासु च अप्रियं चाहितं यस्स्यात्तदस्मै चानुवर्णयेत् नाहमस्य प्रियोऽस्मीति मत्वा सेवेतपण्डितः अप्रमत्तश्च सततम् हितम् कुर्यात्प्रियञ्चयत् नास्यानिष्ठानि सेवेता नाहितैः सह संवदेत् स्वस्थान्नान्न विकम्पेत